दग्धैकदेशा बहवो निष्टप्ताश्च तथा ता परे स्फुटिताक्षाविशीर्णाश्च विप्लुताश्च तथा ता परे समालिङ्ग्यसुतानन्ये पितृन्भ्रातृनथापरे त्यक्तं न शेकुः तत्रैव निधनं गताः सन्दष्टदशनाश्चान्ये समुत्पेतुरनेकशः ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे दग्धपक्षाक्षिचरणाविचेष्टन्तो महीतले तत्र तत्र स्म शरीरिणः जलाशयेषु तप्तेषु क्वाथ्यमानेषु वन्हिना गतसत्त्वा स्म दृश्यन्ते समन्ततः